मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं तर्टिफैव् चतुर्थ्युद्यापननिरूपणम् श्रीगणेशाय नमः दक्ष उवाच उद्यापनं व्रतस्यास्य वदत्वं मुनिसत्तमा येन साङ्गम् सर्वं लभदे व्रतकारकः मुद्गल उवाच उद्यापनं प्रजानाधव्रतस्यादौ मदं बुधैः अधवा वा वर्षमध्येतत्कर्तव्यं व्रतकारिणा अधवा वा भाद्रमासे वै शुक्लायां च प्रजापदे उद्यापनं प्रकर्तव्यं कृष्णायां माघमासके महामण्डपकम् कुर्यात् कदलीस्तम्भमण्डितं नानाशोभासमायुक्तं विभवे सदिमानद वित्तशाढ्यं न कुर्यात्स यथा विभवमाचरेद छत्राद् दर्शादिभि शोभां दीपमालाविराजितम् मणिमुक्तादिकैपूर्णं भूषणैश्च विशेषदः यत्र तत्र यथायोग्यं प्रकुर्याद्व्रतकारकः मध्याह्नसमये तस्या शुक्लाया कथितं प्रभो चन्द्रोदये च कृष्णायाश्च दुर्ध्या पूजनं चरेद गोमयेन प्रलिप्याध धान्यराशिं प्रकल्पयेद तन्मध्येष्टदलं पद्मं कुर्यात् तत् गुरुणा स्वयं कलस्यं ताम्रजं तथा रौप्यं वामृण्मयं दक्ष वस्त्रयुक्मेन वेष्टयेद तस्योपरि सुवर्णस्य पात्रं स्थाप्य महामतिः वस्त्रं तदो गणेशस्य यन्त्रं कुर्याद्विचक्षणः तत्र गणपदेश्चैव मूर्तिर्धातुविनिर्मिता सर्वावयवसंयुक्ता घूषणैराजिता भवेद द्विजोत्तमश्च संस्थाप्य पूजयेत्तां यथाविधि ब्राह्मणान्वरयेच्युद्धानेकविंशतिसङ्ख्यकान् गणानां त्वेदि मन्त्रस्य जपं कुर्याद्विशेषतः ततो होमम् प्रकुर्विदसहस्रं वा तदर्थकम् अष्टोत्तरशतं वापि तथा जप दशांशकं गीतवाद्यपुराणानि वेदाध्ययनमेव च नानाशास्त्रप्रवादांश्च कुर्वन्तु ब्राह्मणांस्तदः यत्र तत्र गणेशस्य कथा सङ्कथयन्तु ते तदः पूर्णाहुदिं कुर्याद्वसोत्पादयेद बलिदानं तद कुर्यात्तदो वायनकं चरेद एकविंशति पक्वान्नैरेकविंशति संख्यकैः नैवेद्यैर्ब्राह्मणान् सम्भोज्यार्थयेत्तान् विशेषतः दक्षिणाम् विपुलाम् दत्त्वा सपत्नीकान् प्रतोषयेद योषिभ्यः कञ्चुकीर्दद्याद्भूषणानि महामतिः कृष्णायां च चतुर्ध्यां स चन्द्रायार्ख्यम् प्रदापयेद शुक्लायां तत्तथा दक्ष चरेन्द्रार्ख्यवर्जितम् आदौ सतिधये दद्यात् पश्चाद् विघ्नेश्वराय वै ततश्चन्द्राय तन्मन्त्रैरर्घ्यं मन्द्रसमन्वितं तिथीनां मातृरूपे त्वं देविः सर्वार्थदायिनि गृहाणार्ख्यं मया दत्तं चतुर्थ्यैते नमो नमः गजानननमस्तुभ्यं नानासिद्धिप्रदायिने गृहाणार्ख्यं बुद्धिपदे मया दत्तं शुभप्रद अधिगोत्रसमुद्भूत गणेशप्रीतिवर्धन गृहाणार्ख्यं मया दत्तं रोहिण्या मृदधारक कृष्णपक्षे सदा रात्रौ भोजनं स समाचरेत शुक्लपक्षे च पञ्चम्याम् ब्राह्मणादींस्तु पूजयेत् चतुर्ध्याम् जागरम् कुर्याद्गणेशकथयान्विदः पञ्चम्याम् पूर्ववत्पूज्य नैवेद्याद्यैर्महामदिः दीनान्धकृपणेभ्यश्च दद्यादनाक ब्राह्मणे विशेषेण दक्षिणा दापयेन्वान्भोज्यन तोषद गणेश दृढ़भक्ति स आदराद ततः सोपस्करां मूर्तिं दद्यात् स्वगुरवे स्वयम् एकविंशतिविप्रेभ्य कलशान् दापयेत्तदः सन्तोष्योदारथी सर्वान् स भावेन क्षमापयेद तदो गणपतिं नित्यं भजेतानन्यजेदशा एवमुद्यापनं कुल्याद्व्रत तस्यास्य महामतिः ससम्पूर्णफलं भुक्त्वा ब्रह्मभूतो भविष्यति वक्तुं न शक्यते दक्षमाहात्म्यं च व्रतोद्भवं सोऽध्यापनं विशेषेण कथितं ते यथा इदं चतुर्धीजं तक्षचरिदं संशृणोति चेद् पठेद्वा तस्य विघ्नेशो मानसेप्सि ददो भवेद् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिदे चतुर्त्युद्यापननिरूपणं नाम पञ्चत्रिंशोऽध्यायः ओम्